नारायणीयं दशकं तर्टि टु मीटर् उपजाति पुराहयग्रीवमहासुरेण षष्टान्तरान्तोद्यतकाण्डकल्पे निद्रोन्मुखब्रह्ममुखाधृतेषु वेदेष्वधित्स किलमत्स्यरूपं सत्यव्रतस्य द्रमिळाधिभर्तुर्नदीजले तर्पयतस्तदानीं कराञ्जलौ सञ्ज्वलिता कृतिस्त्वमदृश्यधा कश्चन बालमीनः क्षिप्तं जले त्वां चकितं विलोक्य निन्येम्बुपात्रेण मुनिः स्वगेहं स्वल्पैरहोभिः कलशीं च वापिं सरश्च न शिषे विभोक्तं योगप्रभावाद्भवदाज्ञयैव नितस्ततस्त्वं मुनिना पयोधिं पृष्ठो मुना कल्पदिदृक्षु मेनं सप्ताहमास्वेदि वदनयासिः प्राप्ते त्वदुक्ते हनिवारिधारा परिप्लुदे भूमितले मुनीन्द्रः सप्तर्षिभिः सार्धमपारवारिण्युद्गूर्णमानः शरणं ययौ त्वाम् त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुःस्तदा ते तत्कम्बकम्ब्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् चशाकृतिम् योजनलक्षदीर्घाम् दधानमुच्चैस्तरते जसम् त्वाम् निरीक्ष्य तुष्टा मुनयस्त्वदुक्रिया त्वत्तुङ्गशृङ्गे रणिम् बबन्धुः आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् संस्थूयमानो नृवरेण तेन ज्ञानम् परं चोपदिशन्नचारीः कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्ताप्य सत्यव्रत भूमिपं वैवस्वताख्यं मनुमादधानक्रोधाधयग्रीवमभिद्रुतो भूः स्वतुङ्गशृङ्गक्षदभक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा विरिञ्जये ह्रीद हृदे ददाह्नप्रभञ्चनागारपदे प्रपायाः सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द